कृष्णयजुर्वेदतैतरीयसंहितायां प्रथमकाण्डे प्रथमः प्रश्नः प्रारम्भः गण गणपतिशोमलिङ्गवेदामुपमश्रवस्तमम् ज्येष्ठराजं ब्रह्मणां ब्रह्मणस्पदहा न शृण्वन् नो दिभ्येदसाधनम् ेत्वेत्वा वायवस्थोयवस्थ देवस्वपिता प्रार्पयतु श्रेष्ठतमाय कर्मण आप्यायध्वमज्ञया देवभागमोऽप्यस्वदेपयस्वदे प्रयावदेवायक्ष्मावस्ते रहीषमाघजं सारुद्रस्य हेतुः परिपूर्णकृध्रुवास्मिन्वपतो स्यादवह्वे यमानस्य पशोन्वाहि औषधप्रत्युष्टकं रक्ष प्रत्युष्टारादयप्रेयमगाद्यषणा प्रत्युष्टा, परेष्टाधा वहन्ति कवयः परस्ता देवेभ्य जुष्टमिह परिहरासदेवानां परिषोत्तमसि परिषमसि देव परेहर्मात्मादिपर्वते राध्यासमाच्छेदा देवारिषन्देव परेश्वर्या ृथव्यासेन्द्राणि संवहनम् घोषादे ग्रन्थिङ्ग्रथ्नादिन्द्रस्य त्वा बाहुप्यामुद्यच्छे बृहस्पतेक्षमन्विहि देवम् नमसि ैकाय कर्मणे देव यश्विष्यसि विश्वधायां पवित्रमति सहस्रधारे प्रहतेन कायस्वा विश्वायुः सा विश्वव्यजा सा विश्वकर्मा संवृच्छमृता वैरु त्तमा मन्त्रास्य सातये सोमे दत्वा तलनक्ष्मीन्द्राय श्री विष्णो यगोरक्षस्व न्देवेभ्य श्रेयं प्रत्युष्टो रक्ष प्रत्युष्टादयोमस्वन्देवानामसितमम् अप्रतमञ्जुष्टतमम् देवममप्रदमसेव मित्रस्य त्वा चक्षुषा प्रेक्षे मावेन्मासंख्या मात्वा यदेवस्य त्वासवे बाहुभ्याम्भ्यामय दुष्टम् निर्मवाम्यग् मनः सहस्तावरभिलक्ष्ये शुंवैश्वा नरञ्जो दत्तर्गोहन्ताम् दुर्याद्या वाप्यामङ्गलक्षमन् व्यक्तिरित्या स्वापस्थे साधयाम्यज्ञे हव्यगो रक्षस्व ेवो सवितोत्पुनात्मच्छत्रेण पवित्रेण वसो सूर्यस्य रश्मिभिरापो देवीरग्रे भुवो व्रग्रे गुवोऽ यज्ञयताग्रे यज्ञमदिन्धत्त युष्मानिन्द्र वर्णेतवृत्तदौर्ये योजमिन्द्रमवर्णे त्वं वृत्रदौर्ये प्रोक्षतास्थाग्नये भोजिष्ठम् प्रोक्षामि त्वन्दव्याय कर्मणे देव इत्याय अवधोतरो रक्षोऽवधोताराधयो इदं देवेभ्ये शमावदार्त्यमावदत्य वायुर्भो वि देवोभः सविता हिरण्यपाणि प्रतिगृह्णातु अवदोतगो रक्षोऽवदोतारादयो दित्यादित्वा पृथिवीवे त्वदिवस्वं भणिरसि प्रदित्वा दित्या स्पद्वे तुत्या प्रदित्वा दिवस्वं भणिर्वे तु दृष्टादि पार्वते प्रदित्वा पर्वे तु देवस्य त्वा च विजप्रथवेभ्याम् घोष्णास्ताभ्याम देवपामिधान्येवान् प्राणायत्वा प्राणाय यत्वादेभ्या मनप्रसिपायुषेधान् देवो वस्रविताय गृण्यपाणि प्रतिगृह्णातु ब्रह्म यच्छापामादञ्जहि निष्प्रातम् प्रजान्द्रगुणो ह सप्तमस्यन्तरिक्षन्द्रगुमः प्राणन्द्रगुमानन्द्रगुमहजरातास्मै यजमानाय पर्योन्द्रगुमह चक्षुद्रगुमह श्रोत्तमहजरातास्मै यजमानाय पर्यो धर्मा सदृशो हयो इन्द्रमोह प्रया इन्द्रमोह स जातानस्मै यजमाना यवर्यो हृषरस्थ प्रयामस्मै रयमस्मै स जातानस्मै यजमाना यवर्यो हब्रोणामङ्गिरसान्तपसादप्यर्मे कपालान्यपि सिन्वन्ति वेतसः ओष्णस्थान्य मृत इन्द्रवायो विमुञ्चता जगति प्रसदान्तस्था सविता धा विद्मे हव्यगो रक्ष स्वमणावृच्छाय स्वाय स्वाय स्वाहा दक्षिणस्वस्रवृष्टिशततेजा वायुरसि जिग्मतेजा पृथिवीदेवैजन्योस्ते पृथिव्यै वृजङ्गक्षगोस्थानं वरुषत वेद्योद्पधानदेव समितः परमस्यां परावृशयस्मान्वेष्टुष्मस्मा तोर पृथिव्यै देवैरन्यै व्रजङ्गक्षगोस्थानं वर्षत वेद्योल्पधानदेव समितः परमस्य ेन पाशेर्य स्वान् वेष्टेन्द्रयन् विश्वमस्तम गो मामो गोरपृथिव्याक्षगोस्थान् शिलेन पाचेर्य स्वान् वेष्टेन्द्रयन् विष्मस्तम गो मामौ गृस्ते स्वापरि गृह्णन्तु गायत्रेण छन्दसाहृत्या स्वापरि छन्दसा देवस्य सवितुसवे कर्म कर्मतश्रीरसुदासस्वराहेदासीराक्रोरस्य विसृपादाय पृथिवीन्दीरदा निर्यामैरयम् चन्द्रमस्वरान्धीरासो अनुदृशेदन्ते प्रत्युष्टो रक्षप्रत्युष्टास्तेजिष्ठेन तेजसानिष्ठवामि गोष्ठम् मा निर्मक्षम् वाजिनम् द्वारवत्मसाह गोसम् चक्षु श्रोत्रम् प्रजान्यम् वाजिनीर्योसकृतायम् सविता धातुश्च यो नो सुकृतस्य लोकेश्व करोमिवत्या सङ्गक्षे समात्मा तमवा ीनां पयोश्चौषधीनागुमस्तस्ये क्षीयमाणस्य निर्वपामिमहीनां पयोश्चौषधेनामेतेज्योस्थेते ज्यो मामिभो देवानां धाम्ये धाम्ने देवेभ्यो दिषेजिषे भव रश्मिभिः न्वाशुप्रायान् धाम्ने धाम्ने देवेभ्यो युजिषैलुषे गृह्णामि च्योतिष्मा च्योतिष्यति स्मा त्रिषधाम्ने धाम्ने देवेभ्यो युजिषैलिषे गृह्णामि कृष्णोऽस्या खरेष्ठोऽये स्वाहवेद स्वाहायत्वा देवेभ्योऽस्मादेशतो मानस्य परिदृढीकस् सूर्य स्वा पुरस्ता पादुकस्याभिजुहो त्रन्धो यज्ञे बृहन्दमध्वरे विशो इन्द्रे स्थो वसूनागोरुद्राणामादित्या नागो सदसि चेतजुहो रवासि भ्राचीनाम्ना प्रियेण नाम्ना प्रिये सदसिकृतस्य यज्ञं पाहि याहि भो नमस्विधस्वा ज्ञेश्वरिदम् ेग् स्वा फैदले वैद्याया स्विता फैदलेवैद्याया विष्णुमासीदी यज्ञवतेन्द्राहने दुश्चरिता तथा सपत्नागो इन्द्रोमे निग्राभेण ग्रामञ्जनिग्रामम् च ब्रह्मदेवाभिवृदन् तथा सपत्नानिन्द्राग्नीमेषोचीनान्व्यस्यभ्यस्त्वारुत्रेभ्यस्वादित्येभ्यस्त्वार्थगोरिहाणाभियन्तवयः विजाञ्यो निमानिर्मक्षमाप्यायन्नामापकोषदयो वरतामृषदयस्थदिवम् गच्छततो नो वृष्ट्यमेलया आयुष्पाग्नेऽस्यायुर्मे पाहि चक्षुष्माग्नेऽक्षुर्मे पाहिदेव परिभिर्मीयमानः न्त एतमनुजोषं हरामिने देशत्वदपचेदयादे यज्ञस्य पाध उपसमितनुवभागाश्चेशं तत् देवा इमाजमुखविश्वे घृन्देहस्योपायोगेतलो पाहि माद्यदिवः पाहि प्रसिद्धे पाहि दृष्टे पाहि गरद्मन्ये पाहि दुश्चरिता णसुषुधायो निग्रस्वाहा देवाघातुमिदो गातुम् मित्त्वा गातुमिदमनसस्पृतयम् नो देवदेवेस्वाहामिन्द्राग्नीवध्या उभाराधकः स्वहमादयध्येदाताराविषागोरयीणामुभावाजस्य सातये हुवेवा अश्रमम् विभो विरावत्तराभाम् विजामातुरवाघास्यामस्य प्रियतेयवभ्यामिन्द्राज्ञे स्तो स्तोमन्यनयामिनव्यम् इन्द्राज्ञेन मदिम् वरो दासपत्ने रथोदम् साकमेकेन कर्मणा शुचिन्नस्तोमन्नवजातमद्येन्द्राग्ने वृत्रहणा निषेधा ेमिता वाचको सत्यवशते धन्यवादसादये पदस्वधम् रजस्या कामेन कृतोऽनभर्कम् नो राजस्य रुदश्चन्द्राग्राधियन् देवं शेधा रुप्रभोषा ह्ये तस्य वदनामयमुदयामसि रामश्रम् वोषयित्वा अस्मासु दक्ष्वा मधुस्तुतम् प्रणलिवसुवाद मृदस्य न पदयो मृणयन्तु अग्ने नय सुमधाराये अस्मान् विश्वानदेव भयनानि विद्वान् योऽध्यस्मद्यपराणमेनो भूयिष्ठान्ते नवक्तिम् विधेमनामपिबन्धामगन्मयच्छक्नवा मदनुप्रबोढम् ेजहो दासोद्धरान् सर्वम् कल्पयादि तत्त्वा हिनये बृहदत्यविभावसो महिषी मत्त्वत्रयश्चत्वा जा उदे अग्नेयत्वम् पारयानव्यो अस्मान् स्वस्य भिरतिदुर्गाणि विश्वानपुर्वीभवा लोकायतनयायशयोः अग्ने प्रदमाहसि देव आमर्जेष्वा यम् प्रमिनामृतामिदुषा देवाभिदुष्टरासः विद्वान् कल्पयाति इति कृष्णयजुर्वेदतैतिरीयशाखायाम् प्रथमकाण्डे प्रथमः प्रश्नः समाप्तः